अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया सर्वकामाश्च कार्यन्ताम् रसगन्धसमन्विताः मनोरथप्रीतिकरा कुरुसत्तमा कुरु कृतं तद्वाक्यसमकालम् च सहदेवो देवो युधाम् श्रेष्ठो धर्मराजे युधिष्ठिरे ततो द्वैपायनो राजन् ऋत्विजः समुपानयत् वेदानिवमहाभागान् साक्षान् साक्षान्मूर्तिमतो द्विजान् स्वयम् ब्रह्मत्वमकरोत् तस्य सत्यवती धनंजयानाषभ सुसा सामो याज्ञवल्यो बभू वाथ ब्रिष्ठुसम पैलोहतासोत्रो धम्य नह तोभव एतेषां पुत्रवर्गाश्च शिष्याश्च भरतर्षभा बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ते वाचयित्वा पुण्याः मोहयित्वा च तं विधिं शास्त्रोक्तम् पूजयामासुस्तद्देवय जन्महत् तत्र चक्रुरनुज्ञाताः शरणान्युतशिल्पिनः गन्धवन्ति विशालानेवेष्मानीव दिवौकसाम् तत आज्ञापयामास स राजाराजसत्तमः सह देवं तदा सद्यो मन्त्रिणम् पुरुषर्षभः आमन्त्रणार्थं दूतांस्त्वं प्रेषयस्वा शुगान्धृतम् उपश्रुत्यवचो राज्ञः स दूतान्प्राहिणोत्तद